श्रीहरये नमः अथ चतुर्दोऽध्यायः श्रीशुक उवाच तथा देवर्षिगन्धर्व ब्रह्मेशानपुरोगमा मुम्मुच्चुकुसुमासारम् संसन्तः कर्बतत्करे हे नेतुर्दुन्दुपयो दिव्या गन्धर्भावन्तृतुर्जगुः ऋषयश्चारणासिद्धास्तुष्टवुः पुरुषोत्तमं योऽसौ सत्य परमाश्चर्यरूपदृग मुक्तो कुखु गन्धर्वसत्तमः प्रणम्य शिरसादीशम् उत्तमश्लोकमव्ययम् अघायतय शोधाम कीर्तन्यगुणसत्कथं योऽनुकम्पितैशेन परिक्रम्य प्रणम्यथं लोकस्य पश्यथो लोकम् स्वं मगात् मुक्तकिल्बिषहान् गजेन्द्रो भगवत् स्पर्शात् विभुक्तो ज्ञानबन्धनात् प्राप्तो भगवतो रूपम् पीतवासश्चतुर्भुजः स वै पूर्वमभूत्राज पाण्ड्यो द्रविट सत्तमः इन्द्रद्युम् न इति ख्यातो विष्णुव्रतपरायणः स एगताराधनकाल आत्मभान् गृहीतमौनव्रत ईश्वरं हरिम् जडादरस्तापस आ प्लुतोच्युतं तमर्चयामासकुलाचलाश्रमः यदृश्चया तत्र महायसा मुनिः समागमत् शिष्यगणैर्परिश्रितः तं वीक्षूष्णीम् अक्रुधार्हणादिकं रहस्युपासीनं इमं शाभमदात अयं धुरात्मकृतबुद्धिरद्य विप्रावमन्ताविशतां तमोन्दं यथा गचस्तब्धमतिस्स एव श्रीशुक उवाच एवं सत्वागतो गस्यो गस्त्यो भगवान् नृपसानुगः इन्द्रद्युम्नोऽपि राजर्ष्येर्दिष्टं तदुपधारयन् आपन्नः कौञ्जरीं योनेम् आत्मस्मृतिविनाशिनेम् हर्यश्चनानुभावेन गजत्वेऽप्यनुस्मृतिः एवं विमोक्ष गजयूतपम् अब्जनाभः तेनापि पार्षदधिकं गमितेन युक्तः गन्धर्वसिद्धविबुधे उपईयमानं कर्मार्भुतं स्वभवनं गरुडासनोघाद् एतन्महाराज तवेरितो मया कृष्णानुभाभो गजराजमोक्षणं स्वर्गं यशस्यं कलिकल्मषापहं दुःस्वप्ननासं कुरु वर्यशुण्वतां यथानुकीर्तयन्त्येतच्छ्रयेस्कामाद्विजातयः शूशयः प्रातरु य दुःस्वप्नाद्युपशान्तये इदमाखहरिः प्रीतो गजेन्द्रं कुरु सत्तमां सर्वभूतानां सर्वभूतमयो विभुः श्रीभगवानुवाच ये मां त्वां च सरश्चेतं गिरिगन्धरकाननं वेत्रकीचकवेणूनां गुल्मानि शुरभाधन् शृङ्गाणीमानि धृष्णे ब्रह्मणो मे शिवस्य च क्षीरोदं मे प्रियं धाम स्वेधद्वीपं च भास्वरम् श्रीवत्सं कौस्तुभं मालां गतां मम सुदर्शनं पाञ्चजन्यम् सुपर्णं पदगेश्वरं शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मधाश्रयां ब्रह्माण्डं नारदं ऋषिं भवं प्रह्लादमेव च मत्स्यकूर्मवराहाद्यै अवतारैः कृतानि मे कर्माणि अनन्तपुण्यानि सूर्यं सोमं हुतासनम् प्रणवं सत्यमव्यक्तं गोविप्रान्धर्ममव्ययं दाक्षायणीर्धर्मपत्नी सोमकश्यपयोरपि गङ्गां सरस्वतीं नन्दां काळिन्दीं सितभारणं ध्रुवं ब्रह्मरुषीं सप्त पुण्यश्लोकांश्च मानवान् उत्थाय अपरात्रान्ते प्रयथासुसमाहिताः स्मरन्ति मम रूपाणि मोष्यन्ते येन सो किलात् ये मां स्तुवन्ति अनेनाङ्ग प्रतिभुज्यनिशात्यये तेषां प्राणात्यये चाहं दधामि विमलां मतिम् श्रीशुक उवाच इत्यादिश्य ऋषिकेशप्रद्माय जलजोत्तमं हर्षयन् इति श्रीमद्भागवते महापुराणे अष्टमस्कन्धे गजेन्द्रमोक्षं नाम चतुर्थोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराज के जय